अथ द्वात्रिंशः सर्गः ततः शासनमाज्ञाय भ्रातुः प्रियकरम् हितम् गत्वा सप्रविवेशासु सुयज्ञस्य निवेशनम् कम्बिप्रमज्ञगारस्थम् वन्दित्वा लक्ष्मणोऽब्रवीत् सखेऽभ्यागच्छ पश्य त्वम् वेश्मदुष्करकारिणः ततः सन्ध्यामपास्थाय गत्वा सौमित्रिणा सह ऋद्धम् स प्राविशल्लक्ष्म्या रम्यम् रामनिवेशनम् तमागतम् वेदविदम् प्राञ्जलिः सीतया सह सुयज्ञमभिचक्रामराघवोऽग्निमिवार्जितम् जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत् सुयज्ञ सोवाच राीता प्रचोदिता हेमसूत्र भारियाय दशना चाथ सा सीता दाछति सखी अंगदयूरा शुभा प्रय्छति सखी तोभ्य भार्य गय्रियाम नात्भूषित तमपीच्छति वै देही प्रतिष्ठापयितुम् त्वयि नागः शत्रुञ्जयो नाम मातुलोऽयम् ददौ मम तम् ते निष्कसहस्रेण ददामि द्विजपुङ्गवा इत्युक्तः स तु रामेण सुयज्ञः प्रतिगृह्य वदम् सौम तचेद ब्रह्मेब त्रिदशे अगस्त्य कौशिकं चाब अर्चयाहुय सौमित्रे अर्चया हूय सौमित्रेन सबुभ तर्पयस्व महाबाहो गोसहस्रेण राघव सुवर्णरजत मणि महाधन कौसल्याशीर्भक् पर्युपतिषति आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् तस्य यानम् च दासीश्च सौमित्रे सम्प्रदापय कौशेयानि च वस्त्राणि यावत्तुष्यति सद्विजः सूतश्चित्ररथश्चार्यः सचिवः शुचिरोषितः तोषयैनम् रत्नैर्वस्त्रैर्धनैस्तथा पशुकाभिश्च सर्वाभिर्गवाम् ये चेमे कठका बहवो दंडमाणवास्ध्यायशील्वा्युंचना अलसा स्वादुका महता सशीतयाना रनपूर्ण दापय शालिवाह सहस्रं द्वेशते भद्रकां तथा व्यंजनाथ सौमित्रे गोसहस्रमुपु मेखलीनाम् महासङ्घः कौसल्याम् समुपस्थितः तेषाम् सहस्रम् सौमित्रे प्रत्येकम् संप्रदापया अम्बा यथा नोनन्देच्च कौसल्या मम दक्षिणा तथा द्विजातीम् स्तान् सर्वान् लक्ष्मणार्चय सर्वशः ततः पुरुषशार्दूलस्तद्धनम् लक्ष्मणः स्वयम् यथोक्तम् ब्राह्मणेन्द्राणामददा धनदो यथा अथा ब्रवीत् बाष्पगलाम् स्तिष्ठतश्चोपजीविनः सप्रदाय बहुद्रव्यमेकैकस्योपजीवनम् लक्ष्मणस्य च यद्वेश्म च यजिदम् मम अशून्यम् कार्यमेकैकम् यावदागमनम् मम इत्युक्त्वा दुःखितम् सर्वम् जनम् तमुपजीविनम् उवाचेदम् धनाध्यक्षम् धना मम ततोऽस्य धनमाजन्मस् सर्व एवोपजीविनः स राशिस्वमहांस्तत्र दर्शनीयो ह्यदृश्यत ततः स पुरुषव्याघ्रस्तद्धनम् सः लक्ष्मणः द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत् तत्रासीत्पिङ्गलो गार्ग्यस्त्रिदशो नाम वै द्विजः क्षतवृत्तिर्वने नित्यम् संवृद्धम् तरुणी भार्या बालानादाय दारकान् अब्रवीत् ब्राह्मणम् वाक्यम् स्त्रीणाम् भर्ता हि देवता अपास्यफालम् कुद्दालम् कुरुष्व वचनम् मम रामम् दर्शय धर्मज्ञम् यदि किञ्चिदवाप्स्यसि स भार्यायावचः श्रुत्वा शाटीमाच्छाद्यदुच्छदा स प्रातिष्ठत पन्थानम् यत्र रामनिवेशनम् भृग्वङ्गिरः समन्दीप्त्या त्रिशतम् जनसंसदि आपञ्चमायाः कक्ष्याया नैतम् कश्चिदवारयत् स राममासाद्यतता त्रिशटो वाक्यमब्रवीत् निर्धनो बहुपुत्रोऽस्मि राजपुत्रमहाबला क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति तमुवाच परिहाससमन्वितम् गवाम् सहस्रमप्येकम् न च विश्राणितम् मया परिक्षिपसि दण्डेन यावत् तावदवाप्स्यसे सशाटीम् परितः कट्याम् सम्भ्रान्तः परिवेष्ट्यताम् आविध्यदण्डम् चिक्षेप सर्वप्राणेन वे सतीर्त्वा सर दण्डस्तस्य कराच्युतः गोव्रजे बहु साहस्रे पपातो तम् परिष्वज्यधर्मात्मा आतस्मात्सरयूतटात् आनयामासता गावस्त्रितटस्याश्रमम् प्रति उवाच च तदा रामस्तम् गार्ग्यमभिसान्त्वयन् मन्यर्न खलु कर्तव्यः परिहासो ह्ययम् मम इदम् हि तेजस्तव यद्दुरत्ययम् तदेव जिज्ञासितुमिच्छता मया इमम् भवानर्थमभिप्रचोदितो वृणीष्व किम् चेदपरम् यवस्यसि ब्रवीमि सत्येन न ते स्म यन्त्रणाम् धनम् हि अद्यन् मम विप्रकारणात् भवत्सु सम्यक् प्रतिपादनेन मयार्जितम् चैव यशस्करम् भवेत् ततः स्वार्यस्त्रिजटो महामुनिर्गवामनीकम् प्रतिगृह्य मोदितः स चापि रामः प्रतिपूर्णपौरुषो महाधनम् धर्म बलैरुपार्जितम् नियोजयामास सुहृज्जने चिराद्यथार्ह सम्मानवचः प्रचोदितः द्विजः सुहृद्भृत्य जनोऽथवा तदा दरिद्रभिक्षाचरणश्च यो भवेत् नरत्र कश्चिन्न बभूव तर्पितो यथार्ह सम्मानन दानसम्भ्रमैः इत्यादर्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः